श्रीमद्भागवतमहापुराणम् एकादशस्कन्ध अथैकादशोऽध्यायः बद्धमुक्त और्भक्तजनो के लक्षणं श्रीभगवानुवाच बद्धो मुक्ततिव्याख्या गुणतो मेन वस्तुतः गुणस्य मायामूलत्वान्न मे मोक्षो शोकमोहौ सुखं दुःखं देहपत्ये स माययां स्वप्नो यथात्मनः ख्याति संसृतेन तु वास्तवीं विद्या विद्ये मम तनो विद्युद्धवशरीरिणां मोक्षबन्धकरि आद्ये माययामे विनिर्मिते एकस्यैव मम मांसस्य जीवस्यैव महामते बन्धुस्याविद्ययानादिर्विद्यया च तथेतरः अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते विरुद्धधर्मिणोस्तात् स्थितयोरेकधर्मिणीं सुपर्णा वेति सदृशौ शखायौ यदीक्षयैतौ कृतनीडौ च वृक्षे एकस्तयो खादति पिप्पलान्न मन्यो निम्नोऽपि बलेन भूयान् आत्मानमन्यं च स वेदविद्वान् अपि अपिप्पलादो न पिप्पलादः यो विद्यया युक्स तु नित्यबद्धो विद्यामयो यस नित्यमुक्तः देहस्थोऽपि न देहस्थो विद्वान् स्वप्ना यथोत्थितः अदेहस्थोऽपि देहस्थकुमति स्वप्नदिव्यथाम् इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च गृहमाणे स्वहं कुर्यान्न विद्वान्यस्त्वविक्रियः दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणाम् वर्तमानो बुधस्तत्र कर्तास्मीति निबध्यते एवं विरक्तः सैन्ये आसनाटनमज्जने दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु न तथा बध्यते विद्वान् तत्र तत्रादियन्गुणान् प्रकृतिस्थोऽप्यसंसक्तो यथा कं रदेक्षया सङ्गस्थिति या छिन्नसंशयः प्रतिबुद्ध इव स्वप्नान्नात्वाद् विनिवर्तते यस्य सुर्वीतसङ्कल्पा प्राणेन्द्रियमनोधियां हि तद्गुणैः यस्यात्मा हिंस्यते हिंस्रैर्येण अर्चते वा क्वचित् तत्र न व्यतिक्रियते बुध न स्तुवित न निन्देत कुर्वत साध्वसाधु स्वां वदतो गुणदोषाभ्यां वर्जत समदिग्मुनिः न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वाम् आत्मा रामो नया वृत्या विचरे ज्वडुन्वन्मुनिः शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि तमस्तस्य समफलो ह्यदी नूमिव रक्षतः मां दुग्धदोहामसतिं च भार्यां देहं पराधीनमसत्प्रजां च वित्त्वं ततीर्थीकृतमङ्गवाचं धीनां मया रक्षति दुःखदुःखे यस्यां न मे पावनमङ्गकर्म शत्योद्भवं प्राणनिरोधमस्य लीलावतारे सितजन्मवासां वन्ध्यां गिरं तां विभुयान्न धीरः एवं विज्ञासया पोष नानात्वब्रममात्मने उपारमेतविरजं मनो मय्यर्प्य सर्वगे यद्यनेशोधारयितुं मनो ब्रह्मणि निश्चलं मयि सर्वाणि कर्माणि निरपेक्ष समाचर श्रद्धालुर्मे कथाशुण्वन् सुभद्रालोकपावनिहि गायन् ननुस्मरन् कर्म जर्म चाभिनयन्मुहु मदर्थे धर्मकामार्थान् आचरन् मदपाश्रयः लभते निश्चलां भक्तिं मयु मयुद्धौ सनातने सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता स वै दर्शितं सद्भिरञ्जसा विन्दते परम्